अथ एकविंशम् दशकम् मध्योद्भवे भुवैलावृतनाम् निवर्षे गौरीप्रधानवनिता जनमात्रभाजि शर्वेण मन्त्रनुतिभिः समुपास्यमानम् सङ्कर्षणात्मकमधीश्वर संश्रये त्वम् भद्राश्वनामकैलावृतपूर्ववर्षे भद्रश्रवोभिर्षिभिः परिणूयमानम् कल्पान्तगूढनिगमोद्धरणप्रवीणम् ध्यायामि देव हयशीर्षतनुम् भवन्तम् ध्यायामि दक्षिणगते हरिवर्ष वर्षे प्रह्लादमुख्यपुरुषैः परिशेव्यमाणम् उत्तुङ्गशान्तधवलाकृतिमेकशुद्धज्ञानप्रदम् नरहरिम् भगवन् भवन्तम् वर्षे प्रतीचि ललितात्मनिकेतुमाले लीलाविशेषलिलितस्मितशोभनाङ्गम् लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणम् तस्याः प्रियाय धृतकामतनुम् भजे त्वम् रम्ये ह्युदीचि खलु रम्यक नाम् निवर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् भक्तैकवत्सलममत्सर हृत्सुभान्तम् मत्स्याकृतिम् भजे भवन्तम् वर्षम् हिरण्मयसमाह्वयमौत्तराहमासीनमद्रिधृतिकर्मठ कामठाङ्गम् संसेवतेऽपितृगणप्रवरोर्यमायम् तम् त्वाम् भजामि भगवन् परचिन्मयात्मन् किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुति प्रभेदैः दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वम् पाहि विज्ञनु तयज्ञवराह मूर्ते याम्याम् दिशम् भजति किम् पुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा सीताभिराम परमाद्भुतरूपशाली रामात्मकः परिलसन् परिपाहि विष्णो श्रीनारदेन सह भारतखण्ड मुख्यैस्त्वम् साङ् ख्ययो आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् प्लाक्षेऽर्करूपमयि शाल्मलयिन्दुरूपम् द्वीपे भजन्ति कुशनामनिवह्नि रूपम् क्रौञ्चेऽम्बुरूपमथ वायुमयम् च शाके त्वाम् ब्रह्मरूपमपि निलोकाः सर्वैर्ध्रुवादिभिरुडु प्रकरैर्ग्रहैश्च पुच्छादिकेष्वयवेष्वभिकल्प्यमानैः त्वम् शिंशुमारवपुषा महतामुपास्यः सन्ध्यासुरुन्दिनरकम् मम सिन्धुशायिन् पातालमूलभुविशेषतनुम् भवन्तम् लोलैककुण्डलविराजिसहस्रशीर्षम् नीलाम्बरम् धृतहलम् भुजगाङ्गनाभिर्जुष्टम् भजे हर गदान् गुरुगेहनाथ इत्येकविंशम् दशकम्